6, मुद्गलपुराण खंडम सिक्स विकटचरत अयेन्टी फोर् ब्रह्मकमंडलु प्रादुर्भावादिवर्णनम श्रीगणेशा नम भ्रुशुंड्युवाच यह गणनाथ से दर्शनाथ स ब्रह्मा स्ना त्वमहाकुण्डे स्तोतुं स्तोत्रम् समारभद ब्रह्मोवाच नमामि तीर्थं गणनायकस्य गणेशकुण्ठं गणनादिकं च अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मपदं निजात्म्यम् अभेदभेदादिविहीनरूपम् चतुष्पदं पञ्चममाद्यभूतं गणेशमायाकृतदृश्यभावं नमामि कैवल्यकनं परेषां भवत्प्रसूतं चतुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् अहं विशुद्धोऽपि जदर्शनेनाभवं कृतब्रह्मकमण्डलुस्थम् तदेव त्रैगुण्यमयं बभूवभागीरथीस्थं रविजामयं च सरस्वतीस्थं तदप्रसूदा सरित्समूह भुवनेषु संस्थाः स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामधपापयुक्ताः नित्यम् जले दे विनिमज्य शुद्धा आयान्ति स्वस्थानमखापहारी प्रयागतीर्थे मरणेन जन्तुर्मनीषिदं तीर्थवरे लभे द्वै तवावलोकेन गणेशकुण्ड तदेव सद्यो लभते सकृच्छेद वाचः परं ते जलबिन्धुजेऽहम् स्पर्शे भवं किं प्रवदामि पुण्यं साक्षात् गणेशाङ्गुशकदजं तन्नमामि कुण्ठं गणनायकस्य धन्योकमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन तोये तथा तेजमहानुभावं ब्रह्मैव नमो नमस्ते त्वदीयतीरे मरणं वरिष्ठं सुमङ्गलं ब्रह्ममयप्रदं तद् विनाश्रमेणैव नरालभन्दे शुकादिकानां पदमत्र पदमत्रचित्रं। त्वत्तो यजस्पृष्टरहो ममास्तु स्नानं तु पानं च सदावलोकः किं वर्णयाम्येव गणेशकुण्ठस्वल्पज्ञभावात्तु नमो नमस्ते भृशुण्ड्युवाच स्तोत्रं गणेशकुण्डस्य यः पठिष्यति मानवः भुक्त्रिं मुक्त्रिं लभेत् सोऽपि श्रद्धया ब्रह्मभूयकम् इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ब्रह्मा तदो गणेशानं जगामहर्षसंयुधः पूज्य स्तुत्वा महेशानाः प्रदक्षिणपरो भवद पादस्पर्शन तस्यापि कमण्डलु जलैर्युधः न्युज्जतामगमत्तत्र नदी तस्मादजायत तदप्रणम्य विघ्नेशं योगमायासमन्वितः सरितं तां चकर्षासौ पुनर्ब्रह्मा कमण्डलौ जगाद गणराजश्च ततस्तं हर्षसंयुधः मा ग्रीष्मेष्व विधातस्त्वं सर्वतीर्थमयीं नदीं मम सेवार्थमत्यन्तलालसा नित्यमा भजेद मदिच्छया नदी जादा मत्क्षेत्रे सर्वपावनी तदस्तं प्रणतो भूत्वा ब्रह्मशोकसमन्वितः जगादतीर्थहीनोकं भविष्यमि गजानन श्रीगजानन उवाच योगमायाबलिने मां माकर्षत्वं पिधामः कमण्डलुं तीर्थजलैरापूर्यस्तानगो भव श्रुत्वा ब्रह्मा तथा कृत्वा ययौ हर्षसमन्वितः ब्रह्म कमण्ठलुः साक्षान्नदी तत्र प्रतिष्ठिता तया क्षेत्रं महेशा नद्याश्च महिमानं को वर्णयितुं क्षमो भवेद देवेश ऊजुः तुरीयं तीर्थमुक् ं यच्छितं ब्रह्मकमण्डलौ कथं बभूव विप्रेष तद्वदस्वसुखप्रदं भृशुण्ड्युवच ब्रह्मकामं च दं सृष्ट्वा स्थापयाम स दृष्ट्वा कामं स्वयं तत्र विह्वलो भूत्पिदामहः दृष्ट्वा सरस्वतीं वेधा कामबाणप्रपीडितः तां गृह्यस्वशां कृत्वा मैथुना योद्यदो भवद हाहा काररवा देवी सस्मारगणनायकं तदशान्तमना ब्रह्मा ज्ञानयुक्तो बभूवः मोक्त्वा तां गर्हयामास स्वात्मानं काममोहितं तथ क्रोधसमयुक्तशशापमदनं विधिः मां प्रमोहयुधं कृत्वा कीडसित्वं त्वं बलाधुना कामशङ्करदो वक्नौ नष्टरूपो भविष्यसि शप्त्वा कामं विधाता सौ ततः स स्मरदेवन् मुनिं श्रेष्ठांश्च सर्वे समा जग्मुः श्रुत्वा वृत्तान्तमुग्रं ते शोकयुक्ताः बभूविरे प्रायश्चित्तार्थमुद्युक्ताः सर्वे देवर्षयस्ततः तदतीर्थानि सर्वे ते निर्ममुर्दैवदर्शयः सार्धत्रिकोटिसंज्ञानि स्वस्वतेजोयुधानि वै तेषु सम्मज्जिदो ब्रह्मा पवित्रो न तीर्थराजं तथा सर्वे सस्मरुर्ब्रह्महे दवे न वै प्रत्यक्षदां तत्र ययौ सर्वेच्छया परः ब्रह्म ममज्ज तत्रापि स्वयं शुद्धो भवन्न च तदसूर्यस्वदेहाद्वयमुनां नर्ममे भराम् तस्यां निमज्य धादासौ पवित्रो न बभूवः आदिमाया ततस्तत्र विनिर्ममे सरस्वतीं निमज्य तत्र वेधासो भवन्नैव यथा पुरा तदशिव स्वयं रेवां निर्ममे तीर्थरूपिणीं तथा निमज्जता सां पवित्रो न ततो विष्णुः स्वदेहाद्वै निर्ममे पावनाय च गङ्गां तस्यां निमज्य सौवेदा शुद्धो भवन्न च तदखेदसमयुक्तो देवेश मुनिभिः सह विचार्य त्रिगुणानां तु बीजं तीर्थं प्रतुष्ठुवुः तदप्रसन्नभावेन तुरीयं तत्र देवपाः प्रकटं तेजसा युक्तं बभूव जलमञ्जसा प्रकाशमयतीर्थं तद्दृष्ट्वा देवर्षयो मराह प्रणम्यापूज्य संहर्षदूजुः प्राञ्जलयो भवन् सर्वतीर्थमिदं नाम भवदुत्रिजगत्सुते पवित्रम् कुरु धादारं नमस्ते तीर्थतीर्थमुम् त्रैगुण्यमयरूपाणि तीर्थानि त्रिजगत्सु तु त्रिजगत्पावनान्येव भवन्ते शास्त्रसम्मते ब्रह्मविष्णुमहेशानां दोषं क्षालयितुं ध्रुतं न समर्थानि तेभ्यस्तु द्विजैर्जातानि निश्चितम् अधस्तुलीयतीर्थं चास्माभिः सम्प्रार्थितं परम् त्रिगुणानां हितार्थाय पावनाय विशेषतः अधोहितं च सर्वेषां कुरुतीर्थात्मरूपकम् एवमुक्त्वा प्रणयमुस्ते सर्वतीर्थं महेश्वराः तदप्रसन्नतां यादं दर्शयामासरूपकं विधात्रे तेन निःपापो बभूव प्रपितामहः तदस्तीर्थं प्रणम्यासौ तुष्टाव सर्वसंयुधः तदस्थं प्रत्युवाचेदं वचनं तीर्थमुत्तमं सर्वतीर्थमुवाच परं वृणुमहाभाग तुष्टं दास्यामि वाञ्छिदम् स्तोत्रेण सृष्टिकर्तस्वं विथा धर्माविचारय ब्रह्मोवाचा वरं ददासि तीर्थत्वं तदा मे संस्थितम्भव कमण्डलौ सदा तेन कृतकृत्योऽस्मि निश्चितं भृशुण्ड्युवाचा तथेदि तमथोक्त्वा तत्तीर्थं तस्य कमण्डलौ जानीतवरदानेन संस्थितम् देवनायकाः तत्र स्थितम् गणेशस्य ध्यानञ्चक्र्यनिरन्तरम् सर्वतीर्थम् हितार्थाय तस्य सेवार्थमादराद उवाच विघ्नराजम् सञ्चिन्त्यर्थम् परं हृदि दृश्यभावम् समासाद्य नदे पादार्चनम् कृतम् वरदानप्रभावेण ब्रह्मणः सदने प्रभो स्थितं मां त्यज्य पादाब्जसमीपस्थं कुरुप्रभो पवित्रं तु विधातारं कृत्वा मायूरक्षेत्रकं भविष्यामि तदर्था या करवं दृश्यभावकं पराधीनतया स्वामिन् किं करोति गणेश्वर विघ्नहीनं कुरुष्व मां भक्तं भक्तवत्सल दृश्यभावं समासाध्यमयूरं नावलोकितं निरर्थकं जनुस्तस्यास्तत्वां सम्प्रार्थये प्रभो एवं नित्यं गणेशानां ध्यात्वा सम्प्रार्थयत् परं स्थापितं सर्वतीर्थं तद्गणेशानेन सन्निधौ देवेश ऊजुः तीर्थराज्यप्रयागो यस्तत्र ब्रह्म बभूवन पवित्रश्च तथश्रेष्ठं कथं तीर्थं भवेन्मुने कथं राजेति संज्ञा च तस्य शास्त्रे प्रकीर्तिता एतत्संशयकं चिन्धि योगीन्द्रोऽसि पुरातनः भृषुण्ड्युवाचां यथा देवसमूहानां राजेन्द्रपरिकीर्तितः इन्द्रान्नैवापरश्रेष्ठो देवो भवति कुत्रचिद् ब्रह्मादयो न देवाश्च गुणाधाराप्रकीर्तिताः पूज्यत्वा देवसंज्ञास्ता भवन्ते चैकदेशतः सार्धत्रिकोटितीर्थानां तथा राजा प्रयागकः प्रयागान्नपरं तीर्थं श्रेष्ठं कुत्रापि वर्तते गङ्गाद्याचरितत्तद्वद्गुणाधारा प्रकीर्तिताः तीर्थसंज्ञा तथा तासामेकलक्षणतो मदा प्रार्थितो तीर्थराजेन तत्रैक भवकारणाद गङ्गायमुनयोगस्तेन सम्मिलितो भवद गङ्गा यमुनयोर्योगे स्नानजं यद्फलं लभेद तदेवमहिमा तत्र तयोरेव न संशयः नर्मदा वरदानेन श्रेष्ठा जाता विशेषतः गुणरूपा न प्रोक्ता जानीद शास्त्रसम्मते अधुना शृणुद प्राज्ञा प्राकृतं यत्कथानकं कमण्डलुस्थितत्वात्तन्नाम्ना ब्रह्मकमण्डलुः गां गदा तेन गङ्गा सा कमण्डलूद्भवा मदा पूर्वगा सा समाख्यादा ब्रह्मादीनां सुदुर्लभा तस्या मूलस्थितः साक्षात् ब्रह्मलोकपितामहः तस्यां स्नात्वा गणेशानां भजतेऽनन्यचे दशा पूर्वं पितामहं तत्र नरस्नात्वा समर्चयेद् विद्यायुक्तो भवेत् सद्योन्ते परां मुक्तिमाप्नुयाद मध्ये शिवस्तद्धा तस्य मयूरे संस्थितस्ततः मध्यमेश्वरनामा स भजते गणनायकं मध्यमेश्वरतीर्थे यस्तस्यां स्नानं समाचरेद ससामर्थ्यं परं प्राप्य पूज्ये शं मुक्तिमाप्नुयाद् अन्ते विष्णुस्थितस्तस्य कृषिकेश इति श्रुतः स्नात्वा नित्यं गणेशान्नं भजते नन्यमानसः तत्र नरस्नात्वा स्नात्वा कृषिकेशं समर्चयेद यशस विपुलं प्राप्यां ते परं मोक्षमवाप्नुयाद यस्यास्तीरे च तीर्थानि देवास्तिष्ठन्त्यनेकशः उभयत्र महेशानामया नामया वक्तुं न शक्यते कमण्डलूद्भवायास्तु प्रभवे प्रभवेत् सर्वजन्तूनां निश्चितं चेकजन्मजं सञ्चितं जलबिन्दोश्च स्पर्शेनैव विनश्यति पापं जन्मस्तं नराणां सर्वदेहिनां जलपानेन तस्यास्तु शक्रलोकं लभेत् स्वयं स्नानेन मुक्तिमाप्नोति यत्र तत्र महेश्वरः मयूरे येन रास्तस्यां स्नानं कुर्वन्ति देवपाग सकृत्ये दीप्सिदं सद्यो लभन्ते ते समोक्षकं यदादृशी महाभागा नदी तत्र व्यवस्थिता दशयोजनविस्तारस्तस्या प्रोक्तो मनीषिभिः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे षष्ठे खण्डे विगडचरिते ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः ओम्